मन्त्रिणो भ्रातरश्चान्ये तद्वचः प्रत्यपूजयन् स तु पुनरेवात्मनात्मवान् भूयो पार्थो लोकानाम् हितकाम्यया सामर्थ्ययोगम् सम्प्रेक्ष्य देशकालव्ययागमौ विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो भवतीति समज्ञाय यत्नतः कार्यमुद्वहन् स निश्चयार्थम् कार्यस्य कृष्णमेव जनार्दनम् सर्वलोकात् परम् मत्वा जगाम मनसा हरिम् अप्रमेयम् महाबाहुम् पाण्डवस्तर्कयामास कर्मभिर्देव सम्मतैः नास्य किञ्चिदविज्ञातम् नास्य किञ्चिदकर्मजम् न च किञ्चिन्न विषहेदिति कृष्णमन्यत स तु ताम् कृत्वा पार्थो युधिष्ठिरः गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जस शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् समासदत् स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् दूत उवाच धर्मराजो हृषी केश धौम्यव्यासादिभिः सह पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः त्वद्दर्शनम् महाबाहो काङ्क्षते स युधिष्ठिरः वैशम्पायनुवाच इन्द्रसेनव श्रुत्वा यादव प्रवरो बलि दर्शनाकाङ्क्षिणम्